गरुडपुराणम् आचारकाण्डम् अध्यायम् तर्टिफोर् रुद्र उवाच पुनर्देवार्चनम् ब्रूहि हृषी कदाधर शृण्वदो नास्ति तृप्तिर्मे गदतस्तव पूजनम् हरिरुवाच हयग्रीवस्य देवस्य पूजनम् कथयामि तच्छृणुष्व येन विष्णुप्रतुष्यति मूलमन्त्रम् महादेव हयग्रीवस्य प्रवक्ष्यामि परं पुण्यं तदा दौ शृणुशङ्कर ॐ सौं क्षौं शिरसे नमः इति प्रणवसंयुधः अयम् नवाक्षरो मन्त्रः सर्वविद्याप्रदायकः अस्याङ्गानि महादेव तान् श्रृणुष्ववृषध्वज ॐ क्षां हृदयाय नमः ॐ क्षीं शिरसे स्वाहा शिरः क्षूं वषट् तथा ॐकारयुक्त शिखाज्ञेया वृषध्वज क्षैं कवचाय हुं वै कवचम् परिकीर्तिदम् ॐ क्षौं नेत्रत्रयाय वैषड् नेत्रम् देवस्य कीर्तिदम् ओम् हः अस्त्राय फट् अस्त्रम् देवस्य कीर्तिदम् पूजाविधिम् प्रवक्ष्यामि तन्मे निगदशृणु आदौ स्नात्वा तदाचम्यतदो यागृहम् व्रजेत् तदप्रविश्य विधिवत् कुर्याध्वं शोषणादिकं यं क्षौमं रमिति बीजैश्च कण्ठिनी कठिनीकृत्यलमिति अण्डमुत्पाद्य च ततः ओङ्कारेणैव भेदयेत् अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेद शङ्खकुन्देन्दुधवलम् मृणालरजतप्रभम् गोक्षीरसदृश्यं तद्वत्सुर्यकोडिसमग्रभम् शङ्खं चक्रम् गदाम्पद्मम् धारयन्तं च दुर्भुजम् कुण्डलिनं वनमालासमन्वितम् सुचक्रम् सुकपोलं च पीताम्बरधरं विभुं भावयित्वा महात्मानं सर्वदेवैः समन्वितम् अङ्गमन्त्रैस्तदोन्यासं मूलमन्त्रेण वै तथा तदश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभां ध्यायेद् ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर दस्वाह ये दुद्रदेव आसन सेम भयग्रीवासन से आगछत चेबद आवाह्यमंडले पूजा दिखे द्वार धाधास् पूजा कार्याध्वज समस्त परिवाराय अच्युताय नम इति अस्ये मध्यर्चनं कार्यं द्वारे गङ्गाञ्च पूजयेत यमुनां च महादेवीं शङ्ख पद्मनिध ई तथा गरुडं पूजयेदग्रे मध्ये शक्तिं च पूजयेद् आधाराख्य महादेव तथ कूर्मं समर्चयेद् अनन्दं पृथिवीं पश्चाद्धर्मज्ञाने तदोर्चयेद् वैराग्यमथ चैश्वर्यमाग्नेयादिषु पूजयेद अधर्माज्ञाना वैराग्यानैश्रर्ग्यादीं स्तु पर्वदः सत्त्वं रज्जस्तमश्चैव मध्यदेशे ध पूजयेद नन्दं नाडं च पद्मं च चा मध्ये चैव प्रपूजयेद् अर्क सोमाग्निसंज्ञानं मण्डलानां हि पूजनं मध्यदेशे प्रकर्तव्यमिति रुद्रप्रकीर्तितम् विमलोत्कर्षिणी ज्ञानाक्रिया योगे वृषध्वज प्रह्वी सत्या तथेशानानुग्रहौ शक्तयोह्यमुः पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः अनुग्रहाकर्णिकायाम् पूज्या श्रेयोर्द्धिभिर्नरैः प्रणवाद्यैर्नमोन्तैश्च च दुर्ध्यन्तैश्च नामभिः मन्त्रैरेभिर्महादेव आसनं परिपूजयेद् स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः दीपनैवेद्यदानेन आसनस्यार्चनं शुभं कर्तव्यं विधिनानेन इति ते करकीर्तितम् तदश्चावापयेद्देवं हयग्रीवं सुरेश्वरं वामना सा पुडान् वामना सा पुडेनैव आगच्छन्तं विचिन्तयेद मूलमन्त्रेण शङ्कर आवाहनं प्रकर्तव्यं देवदेवस्य शङ्खिनः आवाह्यमण्डले तस्य न्यासं कुर्याददन्त्रिदः न्यासम् कृत्वा च तत्रस्थम् चिन्तयेत् परमेश्वरम् हयग्रीवम् महादेवम् सुरासुरनमस्कृतम् इन्द्रादिलोकपालैश्च संयुक्तम् विष्णुमव्ययम् ध्यात्वा प्रदर्शयेन्मुद्रा शङ्खचक्रादिकाशुभाः पाद्यार्ख्या च मनीयानि तदो दद्या च विष्णवे स्नापये च तदो देवम् पद्मनाभमनामयम् देवम् संस्थाप्य विधिवध्वस्तम् दद्याद्वृषध्वज तदोह्या चमनम् दद्यादुपवीदम् तदशुभम् तदश्च मण्डले रुद्रध्याये देवम् परेश्वरम् ध्यात्वापाद्याधिकम् भूयो दद्याद्देवाय शङ्कर दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर ॐ क्षां हृदयाय नमः अनेन हृदयं यजेद ॐ क्षीं शिरसे नमश्च शिरस्स पूजनं ॐ क्षूं शिखायै नमश्च शिखामेदेन पूजयेद ॐ क्षैं कवचाय नमः कवचम् परिपूजयेद् ॐ क्षौ नमश्च नेत्रम् चानेन पूजयेद ॐ क्षः अस्त्राय नम यदि चानेन पूजयेद हृदयम् च शिरश्चैव शिखाम् च कवचम् तथा पूर्वादिषु प्रदेशेषु ह्येदास्तु परिपूजयेद कोणे श्वास्त्रं यजेदरुद्रनेत्रम् अभ्यै प्रपूजयेद पूजयेत् परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभां शङ्खं पद्मं तथा चक्रं गदां पूर्वादिदोर्चयेद खड्गं च मुसलं पाश्यमङ्घुशं सशरं धनुः पूजयेत् पूर्वदोरुद्रयेभिर्मन्द्रैस्वनामगैः श्रीवत्सम् कौस्तुभम् मालाम् तथा पीताम्बरम् शुभम् पूजयेत् पूर्वतो रुद्रशङ्खचक्रगदाधरम् ब्रह्माणम् नारदं सिद्धं गुरुम् परगुरुम् तथा गुरोश्च पादुके तद्वत् परमस्य गुरोस्तथा इन्द्रम् सवाह्नम् चाधपरिवारयुतं तथा अग्निं यमम् निर्वृतिम् च वरुणम् वायुमेव च सोममीशानमेवं वै ब्रह्माणम् परिपूजयेद पूर्वादिकोर्ध्वपर्यन्तम् पूजयेद्वृषभध्वजः वज्रं शक्तिम् तथा दण्डम् खड्गम् पाशम् ध्वजम् गतमम् गदाम् त्रिशूलम् च प्रपद्मे च आयुधान्यथ पूजयेत् विश्वक्सेनं ततो देवमैशान्यां दिशि पूजयेदे येभिर्मन्द्रैर्नमोन्तैश्च ये प्रणवाद्यैर्वृषध्वज पूजा कार्यामः देवह्यनन्दस्य वृषध्वज देवस्य मूलमन्त्रेण पूजा कार्या वृषध्वज गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च प्रदक्षिणम् नमस्कारम् जप्यम् तस्मै समर्पयेद स्तुवेदान्या स्तुत्या प्रणवाध्यायर्वृषध्वज ॐ नमो हय शिरसे विद्याध्यक्षाय वै नमः नमो विद्या स्वरूपाय विद्यादात्रे नमो नमः नमः शान्ताय देवाय या त्रिगुणायात्मने नमः सुरासुरनिखन्द्रे च सर्वदुष्टविनाशिने सर्वलोकाधिपदये ब्रह्मरूपाय वै नमः नमस्तेश्वरवन्द्याय शङ्खचक्रधराय च चा। नम आद्याय दान्ताय सर्वसत्त्वहिताय त्रिगुणाय ब्रह्म ब्रह्मविष्णुस्वरूपिणी हरुद्रे हरुद्रे सुरेशाय सर्वगाय नमो नमः इत्येवम् संस्थवम् कृत्वा देवदेवम् विचिन्तयेद् हृत्पद्मे विमले रुद्रशङ्खचक्रगदाधरम् सूर्यकोटिप्रतिकाशम् सर्वावयवसुन्दरम् हयग्रीव मही शेषं परये कथिता पूजा हय्रीवरा य पठेत्परया भक्या स गचे परमं पदं श्रीगारुडे महापुराणे आचारकांडे हयग्रीवूज विधिना चतुत्रिंशोध्याय ओम